तृतीयश्लोकः अहमिति कुत आयातेत्यन्विष्यान्तः प्रविष्टयात्यमलधिया अवगम्य स्वं रूपम् शाम्यत्यरुणाचलत् त्वयि त्यहम् कुतः स एष इत्येव शुद्धया धिया हृदि प्रविष्टया विमृग्य तत्त्वमात्मनः अवैति चेच्चिदात्मकम् भवन्तमात्मरूपतो न देव सङ्गताम् बुधिम् त्वयि प्रशान्तिमेति ज्ञात्वैवमात्मलाभाय यतमानस्य सिद्धये ऋजुमार्गस्तृतीयेन विस्पष्टमुपदिश्यते आभासमात्रो जीवोऽयम् चिज्जडग्रन्थिरूपकः तज्जिदंशनिदानन्तु भवत्यात्मा परः स्वयम् हित्वा जडांशम् देहादि शिष्टां चैतन्यरूपिणीम् शुद्धा हन्ताम् समादाय तन्मूलं स्वम् गवेषयेत् निमजेत् सलिले लब्धुम् मग्नम् वस्तु यथा तथा अहन्ता मूलमन्विष्यन् निमज्जेत् साधको हृदि स्वामिनो गन्धमादाय यथाश्वातम् गवेषयेत् शुद्धाहन्तां तथादाय धीस्वे स्वमूलं गवेषयेत् गवेषणे स्थिरीभूतम् मनो विशते रुद्गुहाम् तदा भायात् स्वभासात्मा शाम्येदपि मनोऽन्ततः मनो नाशादपार्थक्यम् स्वतः सिद्धम् प्रकाशते मनःकृतो हि भेदोऽयम् द्वयोर्ब्रह्मात्मनोरिह इदम् अनयन्वेषणात् स्वस्य तत्त्वस्य हृदिमज्जनम् साधनम् परमम् मुक्तेर्विचार इति चोच्यते अत्यन्त्यैक्यम् नावृत्तिम् दर्शयिष्यन्नतो गुरुः नदीम् दृष्टान्तयत्यब्धिम् गत्वा तद्रूपताम् गताम् आत्मानुभूतिरेषैव मुक्तिरित्यभिधीयते सत्यास्थितिः परं धाम कैवल्यम् सहजा स्थितिः स्वज्ञानमृतत्वम् च मौनं निर्भयतेत्युत स्थितिमेतां परां तुर्यां शंसन्ति बहुधा बुधाः आत्मा तु ज्ञेयतां नयते तुर्ये ज्ञातापि नास्ति ज्ञानाज्ञानविनिर्मुक्त आत्माज्ञानस्वरूपकः ज्ञेयज्ञातृविहीनो सावात्मा भवति केवलः अनात्मन्यात्मधेनाशः स्वात्मज्ञानमितीर्यते नष्टं यस्य विचारेण मनोहृदे निमज्जनात् आत्मैव स ब्रह्मैव ब्रह्मविन्न ब्रह्म ब्रह्मज्ञयोर्भेदम् मन्वानः पारमार्थिकम् मिथ्याग्रहेण तेनैव प्रतिबध्येत साधकः ज्ञानाद्विमुक्तिरित्युक्तेर्ज्ञानमित्यर्थ एव हि न ज्ञानं कारणं मुक्तेर्मुक्तिर्ज्ञानफलञ्चन त्मनः सहजा मुक्तिः स्वरूपम् ज्ञानमात्मनः स मुक्तिर्नित्यसिद्ध्यैव स्वयमेव स्वकारणम् व्यावहारिकदृष्ट्या तु ज्ञानान्मुक्तिरितीर्यते न वक्तुम् नापि मन्तुम् वा शक्यम् एतत्परम् मौनव्याख्याननिर्देश्यं वेद्यं च स्वानुभूतितः न वक्ता न च मन्ता वा तत्र कश्चन शिष्यते अत एतत्पदं तुर्यं मौनमित्यभिधीयते वाचोऽपि मनसा साकं निवर्तन्ते यतो द्वयात् अनुभूयतमानन्दं न बिभेति कुतश्चन यत्रास्ति भेदविज्ञानम् नाभेतिस्तत्र करिचित् इति च श्रूयते यस्मात् तुर्यमेवाभयं पदम् स्वस्वरूपपरिज्ञानात् कथम् ऐक्यं परात्मना इति प्रश्नो निराधार ऐक्यम् स्वाभाविकम् यतः अत्रोक्तेन विचारेण लभ्यैषा परमा गतिः नान्यथा लभ्यते सेयम् इति वेदान्तनिर्णयः इह दिष्टस्य एवार्थो नदी दृष्टान्तयोजनात् अन्यत्रा नेकदा चापि स्पष्टम् न सताम् नोपासनेन योगेन पुण्यैर्वापि च कर्मभिः लभ्येतेदम् पदं तुर्यम् इत्येवं च प्रदर्शितम् मिथ्येयम् जीवता यावन्न लुप्येत विचारणात् तावत् संसारनिर्मोक्षो न किल देहिनाम् जीवत्वमादिमो धर्मः कर्तृत्वाद्यास्तदाश्रयाः जीवतारोपिता पूर्वम् कर्तृवाद्यात परं जीवत्वनाशेषाशास्थर्मगो योग गीताधीय कर्तृत्क स जीव्यागपूक सर्वधर्मपरित्यागो जीवत्वत्याग एव हि अत्यागे जीवतायास्तु त्यक्तो धर्मो न कश्चन इत्यौपनिषदम् स्वास्थ्यम् परमम् पदमव्ययम् अत्रोपदिष्टम् द्रष्टव्यम् अद्वैतं तुर्यनामकम् रुजुमार्गमिमं हित्वा चरन्तन्यपथातु ते कालेन परमं धाम यान्ति ते रुन्निमज्जनात्